हरि ओं श्रीसीतारामचन्द्राभ्यं नमः अथ श्री अध्यात्मरामायणे किष्किन्धाकाण्डे द्वितीय सर्गः श्रीमहादेव उवाच इत्थं स्वात्मपरिष् निर्धूताशेषकल्मषं राम सुग्रीवमालोक्य सस्मितं वाक्यमब्रवीत् माया मोहकरीं तस्मिन् कार्यसिद्धये सखे त्वदुक्तम् यत्तन्माम् सत्यमेव न संचय किन्तु लोका उदिशन्ति माम् एवम् रघुनन्दनः कृतवान् किं कपीन्द्राय सख्यम् कृत्वा अग्निसाक्षिकम् इति लोकापवादो मे भविष्यति न संचय गत्वा युद्धाय वालिनम् बाण्डेनैकेन तं हत्वा राज्ये त्वामभिषेचये तथेति गत्वा सुग्रीव किष्किन्धोपवनं द्रुतम् कृत्वा शब्दमहानादं तम् माभयत वालिनं तच्छ्रुत्वा भ्रातृनिनदम् रोषताम्र विलोचन निर्जगाम सुग्रीवो यत्र वानरः तम् आपतन्तं सुग्रीव शीघ्रं वक्ष्यस्य ताडयत् सुग्रीवम् अपि मुष्टिभ्यम् जघानक्रोधमूर्छितः स्वालितमापि सुग्रीवम् एवं क्रोधौ परस्परम् अयोध्ये तामेकरूपौ दृष्ट्वा रामोति विस्मितः न मोच तदाबाणम् सुग्रीव वधशङ्कया ततो दुद्राव सुग्रीवो भवन रक्तम् वाली स्व भवनं ज्ञात सुग्रीवो राममब्रवीत् किं मां घातये राम शत्रूणा भ्रातृरूपिणा यदि व धनदेवाञ्च स्वम्भेव जै मां विभो एवम्मे कृत्वा सत्यवादीन्द्रगुत्तम उपेक्षसे किमर्थम् शरणगतवत्सल श्रुत्वा सुग्रीव वचनम् रामस्थासु विलोचन आलिङ्ग्यमात्म भैषित्वम् दृष्ट्वा वाम एकरूपिणौ वित्तघात्रित्वमाशङ्क्य मुक्तवान् सायकम् नहि इदानीमेव ते चिह्नम् करिष्ये ब्रह्मचान्तये गत्वा हुह्य पुनश्चत्रुं हठं द्रक्षसि वालिनम् रामोहं त्वां च पेभ्रात हनिष्यामी रिपुं क्षणात् हित्वाश्वास्य च सुग्रीवम् रामो लक्ष्मणम् अब्रवीत् सुग्रीवस्य गले पुष्प बाला मामुच्च पुष्पितां प्रेषय स सुग्रीवं वालिनं प्रति लक्ष्मणस्तु तदा बद्ध्वा गच्छ गच्छेति सादरम् प्रेषयामास सुग्रीवम् स्वपि गत्वा तथा करोत् पुनरप्यद्भुतं शब्दम् कृत्वा वालीनमाह्वयत् तृच्छुत्वा विस्मितो वाली, वाली। क्रोधेन महतावृतः बद्ध्वा परिकरम् सम्यक् गमना चक्रे गालीन तारा गृहीत न गेद शंका वजायते इन मेवते भगने पुनराया सत्रो सहायो कच्चि नौनम सामगत वाली तामह शुभ्रु शङ्का ते वेत्तु तद्व्यता प्रियकरं परित्यज्य गच्छ गच्छामि गच्छा तं रिपुं हत्वा शीघ्रं तमायासि स्वाहायस्तको भवेत् स्वाहायो यदि सुग्रीव ततो हत्वा भयं क्षणात् आयस्वेशुचोर कथं तिष्ठेद् गृहे रिपं नियम्बं हि त्वा यास्यामि सुन्दरी अरोवाच मत्योन्न शृणो राजेन्द्र श्रुत्वा कुरु यथोचितम् अह मां मङ्गलपुत्रो मृगयायां कृतम्बः अयोध्याधिपति श्रीमान् रामो किले किल लक्ष्मणेन सह भ्रात्रा सीतया भार्यया सह आगतो दण्डकारण्यम् तत्र रावणेन सह भ्रात्रा मार्गमाणोऽथ आगतो ऋष्यमुकाद्रिम् सुग्रीवेण समागतः चकारतेन सुग्रीव सख्यं च न सुरसाक्षिकम् प्रतिज्ञां कृतवान् रामः लक्ष्मणः वालिनम् समरेहत्वा राजानं त्वां करोम्यहम् इति निश्चित्यतो यातो निश्चितं चुणु बध्वचः इदानीमेव ते भगिनः कथं पुनः उपागतः अथ त्वं सर्वथा वैरं त्यक्त्वा सुग्रीवमानय युवराज्ये भिषिञ्चाशु रामम् चरणं व्रज पाहे मा राज्यं कुलं च हरिपुङ्गव इत्युक्त्वा सुमुखी पदयो पादयो प्रणिपत्यतम् हस्ताभ्यां चरणो धृत्वा रुरोद भयविह्वलाय ताम् आलिङ्ग्य सदावाली स्वस्नेहमिदमब्रवीत् स्त्रीस्वभावा विवेशि त्वं प्रिये नास्ति भयं यदि समायातो लक्ष्मणेन समं प्रभु तदा रामेण मे भविष्यति न संशयः रामो नारायण साक्षात् अवतीर्णोऽखिलप्रभु भूभारे हरणाथाय कृतं पूर्वं मया नघे स्वपक्ष परपक्षो वा नास्ति तस्य परात्मनः अनेष्यामि गृहं साध्वी नत्वा तच्चरणाम्बुजम् भजतो नो भजत्ये च सुरेश्वरः यदि स्वयं समायासि सुग्रीवोऽहंसितं क्षणात् यदुक्तम् यौवराजाय सुग्रीवस्याभिषेचनम् कथं बाहूयमानोऽहम् युद्धाय रिपुणा प्रिये शूरोऽहं सर्वलोकानां सम्मतः शुभशुभलक्षणे भीतभीतमिदं वाक्यं कथं वाले वने प्रिये तस्मात् शोकं परित्यज्य तिष्ठ सुन्दरी विस्मरि एवम् आश्वासितानां तां शोचन्तीम् अश्रुलोचन गतो वाली समुद्युक्तः सुग्रीवस्य वधाय स दृष्ट्वा वालिनमायान्तं सुग्रीवो भीमः उत्पपात गले बद्ध पुष्पमालो मतङ्गवत् मुख्यभ्यन् ताडयामास लिनं चोपितं तथा अयन् वाली, वाली च सुग्रीवम् सुग्रीवो वालिनं तथा रामं विलोकयन्नेव सुग्रीवो युयुधि युधि यु यु इत्येवं युध्यमानोतो दृष्ट्वा रामः प्रतापवान् बाणम् आदायतु निरात् इन्द्रे च ध्वनुष सन्धे अकृष्य कर्णपर्यन्तम् अदृश्यो वक्षखण्डगः निरीक्ष्य वालिनं सम्यक् लक्ष्यं तद् हृदयम् हरिः उत्सीमम्बिभेद स शरो वक्षो वालिनः कम्पयन्महिम् उत्पपातः महाशब्दम् मुञ्चन् स निपपातः सदा मुहूर्तं निन्यो भूत्वा चेतनमापसः ततो वालिः दशर्जाग्रे लोचनं धनुरालम्ब्य वामे हस्ते नान्येन सायकम् पिभ्राणं क्षीरवसनम् जटामुगुटारिणम् विशाल वृक्ष सम्राजन् वनमाल विभूषितम् पीन चार्वायत भुजम् नवदुर्वा दलच्छविं सुग्रीव लक्षणाभ्यां च पार्श्वयो परिसेवितम् विलोक्य शनकै प्राह क्वाले रामम् विगर्हयन् किं मया प कृतं राम तव येन हतोऽस्म्यहम् राज धर्ममभिज्ञाय गर्हितं कर्म ते कृतम् वृक्षखण्डे शिरो भूत्वा च जता मयि सायकम् यशक्यं लप्स्य राम चौरवकृतसङ्ग्रह यदि क्षत्रे यदा मनोर्वंश समुद्भव युद्धम् कृत्वा समक्षं मे प्राप्स्यसे तत्फलं तदा सुग्रीवेण कृतं किं ते मया वा न कृतं किमौ रावणेन हृता भार्या तव राम महाबले सुग्रीवम् शरणं यात तदर्थमिति शुश्रुम बत राम न जानीषे मद्बलं लोकविश्रुतम् रावणं सकुलं बध्वा रसितं लङ्कया सह आनयामि मूर्ता धा यदि चेच्छामि याघव धर्मिष्ठ रघुनन्दन वानरं व्याधवद्धत्वा, धर्मंकं धर्मं कं अभक्ष्यं वानरं मांसम् हत्वा मां किं करिष्यसि इत्येवं बहुभाषन्तम् लिनम् राघवो ब्रवीत् धर्मस्य गुप्ता लोकेऽस्मिन् चरामि स शरासनः अधर्मकारिणम् हत्वा सद्धर्मम् पालयाम्यहम् दुहिता भगिनी भ्रातु भार्या चैव तथा स्नुषा समायो रमते तासाम् एकामपि विमूढधि पातकी स तु विज्ञेय सर्वध्यो ्रातृकनिष्ठस्य भार्यायां रमसे बलः अतो मया धर्मविदा अतो जीवनगोचर संकपित्वा न जानीषे महान्तो विचरन्ति संचारे लोकं पुनः सञ्चारयेतस्था नातिभाषयेत् तच्छ्रुत्वा भयसंसरस्तो ज्ञात्वा रामं ब्रह्मा पतिं बाली चनम् अब्रवीत् राम राम महाभाग जाने त्वां परमेश्वरम् अजानता उक्तम किञ्चित् उक्तं तच्छन्तुमर्हसि साक्षात् तच्छरघातेन विशेषेण तव कृतः स महायोगी दुर्लभं तव दर्शनं यन्नाम विवशो गृह्णन् म्रियमाण परं पदम् याति साक्षात् सेवाद्य मुमुर्छोर्मे पुरस्थितः देव जानामि पुरुषम् त्वां श्रियं जानकीं शुभम् रावणस्य वधार्थाय गातं त्वां ब्राह्मणार्थितम् अनुजानीहि मां राम यातं तत्पदमुत्तमम् मम तुल्यबले अङ्गदे तं दयां कुरु विचल्यं राम हृदयम् पाणिना स्पृशन् तथेति बाणम् उद्धृत्य राम पस्पश्च पाणिना त्यक्त्वा तद्वानरं देहम् अमरेन्द्रो भवत् क्षणात् वाली रघुत्तमशरभियतो विमृष्टो रामेण शीतलकरेण सुखाकरेण सद्यो विमोच कपिदेहमनन्य लभ्यम् प्राप्त पदम् परमहंसगणे सुरापम् इति श्रीमदध्यात्मरामायणे उमामेश्वर संवारे किष्किन्धाकाण्डे द्वितीय सर्गः श्रीसीतारामचन्द्रार्पणमस्तु